अथ पञ्चविंशः सर्गः स सुग्रीवम् च ताराम् च साङ्गदाम् सः लक्ष्मणः समानशोकः काकुत्स्थः सान्त्वयम् निदमब्रवीत् स शोकपरितापेन श्रेयसायुज्यते मृतः यदत्रानन्तरम् कार्यम् तत्समाधातुमर्हथ लोकवृत्तमनुष्ठेयम् कृतम् वो न कालादुत्तरम् किञ्चित् कर्म शक्यमुपासितुम् नियतिः कारणम् लोके नियतिः कर्म साधनम् नियतिः सर्वभूतानाम् नियोगेष्विहकारणम् नियोगे चेश्वरः स्वभावे वर्तते लोकस्तस्य कालः परायणम् स्वभावम् च समासाद्य न कश्चिदतिवर्तते न कालस्यास्ति बन्धुत्वम् न हेतुर्न पराक्रमः न मित्रज्ञातिसम्बन्धः कारणम् सावदानार्थसंयोगैः पवित्रम् प्लवगेश्वरः स्वधर्मस्य च संयोगा, संयोगा जितस्तेन महात्मना स्वर्गः परिगृहीतश्च प्राणा न परिरक्षत एषा वै नियति श्रेष्ठायाम् हरियूथपः तदलम् परितापेन प्राप्तकालमुपास्यता वचनाम् ते तु रामस्य लक्ष्मणः परवीरः अवदत्प्रश्रितम् वाक्यम् सुग्रीवम् गतचेतसम् कुरु त्वमस्य सुग्रीवप्रेतकार्यमनन्तरम् ताराङ्गदाभ्याम् सहितो बालिनोदहनम् प्रति समाज्ञापय काष्ठानि शुष्काणि च बहूनि च च दिव्यानि बालिसंस्कारकारणात् समाश्वासय दीनम् त्वमङ्गदम् दीनचेतसम् मा भूर्बालिश बुद्ध्यस्त्वम् त्वदधीनमिदम् पुरम् अङ्गदस्त्वानयेन्माल्यम् वस्त्राणि विविधानि च घृतम् तैलपथो गन्धान्यच्चात्रसमनन्तरम् त्वम् तारशिबिकाम् शीघ्रमादाया सज्जीभवम् दुःप्लवगाः शिबिका वाह नोचिताः समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम् एवमुक्त्वा तु सुग्रीवम् सुमित्रानन्दवर्धनः तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरः लक्ष्मणस्य वचः श्रुत्वा तारः सम्भ्रान्तमानसः प्रविवेशगुहाम् शीघ्रम् शिबिकासक्तमानसः आदाय शिबिकाम् तारः स तु पर्यापतत्पुनः वानरैरुह्यमानाम् ताम् शूरैरुद्वह नोचितैः दिव्याम् भद्रासनयुताम् शिबिकाम् स्यन्दलोपमा पक्षिकर्मभिराचित्राम् द्रुमकर्म विभूषिता आचिताम् ततः विमानमिव सिद्धानाम् जालवातायनायुता सुनियुक्ताम् विशालाञ्च सुकृताम् शिल्पिभिः कृताम् दारुपर्वतकोपेताम् चारु कर्म परिष्कृताम् वराभरणहारैश्च चित्रमाल्योपशोभिता गुहागहन सञ्च्छन्नाम् रक्तचन्दनभूषिताम् पुष्पौघैः समभिच्छन्नाम् पद्ममालाभिरेव च तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृता ईदृशीम् शिबिकाम् दृष्ट्वा रामो लक्ष्मणमब्रवीत् क्षिप्रम् विनीयताम् वाली प्रेतकार्यम् विधीयत ततो वालिनमुद्यम्य सुग्रीवः शिबिकाम् तदा आरोपयत विक्रोशम् न गदेन सहैव तु आरोप्य शिबिकाम् चैव वालिनम् गतजीवितम् अलङ्कारैश्च आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः और्ध्वदेहिकमार्यस्य क्रियतामनुकूलतः विश्राणयन्तो रत्नानि विविधानि बहूनि च अग्रतः प्लवगायाम् तु शिबिका तदनन्तरम् राज्ञा दृश्यन्ते भुवि यादृशाः तादृशैरिह कुर्वन्तु बाणराभर्त्रसत्क्रिया तादृशम् वालिनः क्षिप्रम् प्राकुर्वन्नौर्ध्वदेहिकम् अङ्गदम् परिरभ्याशु तारप्रभृतयस्तथा क्रोशन्तः प्रययोः सर्वे वानराहतबान्धवाः ततः प्रणिहिताः सर्वा वशानुगाः चुक्रुशुर्वीरवीरेति भूयः क्रोशन्ति ताः प्रियम् ताराप्रभृतयः सर्वा वानर्यो, तारा वानर्यो हत अनुजग्मुश्च भर्तारम् क्रोशन्त्यः करुणस्वना तासाम् रुदितशब्देन वानरीणाम् वनान्तरे वनानि गिरयश्चैव विक्रोशन्तीव सर्वतः पुलिनेगिरिनद्यास्तु विविक्ते जलसंवृते चिताम् चक्रुस्व बहवो वानरावणचारिणः अवरोप्य ततस्कन्धा तस्थुरेकान्तमाश्रित्य सर्वे शोकपरायणाः ततस्तारापतिम् दृष्ट्वा शिबिकातलशायिनम् आरोप्याङ्केशिरस्तस्य विललापसुदुःखिता हा वा हा नाथममवत्सला हा महार्ह महाबाहो हा प्रहृष्टमिह ते वक्रम् गता सोरपि मानदा अस्तार्कसमवर्णम् च दृश्यते जीवतो यथा एष त्वाम् रामरूपेण कालः कर्षति वानर येन स्वधवाः सर्वाः कृता एकेषु तवेष्टाननु चैवेमा भार्याश्चन्द्रनिभाननाः इदानीम् नेक्षसे कस्मात् सुग्रीवम् प्लवगेश्वर एते हि सचिवा राजम् स्तारप्रभृतयस्तव पुरवासिजनश्चायम् परिवार्य विशीदति विसर्जयैनान् सचिवान् यथा पुरमरिन्दमा ततः क्रीडामहे सर्वा वनेषु एवम् विलपतीम् ताराम् प्रतिशोकपरीवृता उत्थापयन्त्यस्म तदा वानर्यः शोककर्षिताः सुग्रीवेण ततः सार्धम् सोऽगतः पितरम् मृदन् चितामारोपयामास शोकेनाभिप्लुतेन्द्रियः ततोऽज्ञम् विधिवद्धत्वा सोपसव्यम् चकारः पितरम् दीर्घमध्वानम् प्रस्थितम् व्याकुलेन्द्रियः संस्कृत्य बालिनम् तन्तु विधिवत्प्लवगर्षभाः आजग्मुरुदकम् कर्तुम् नदीम् शुभजलाम् शिवा ततस्ते सहितास्तत्र ह्यम् गदम् स्थाप्य चाग्रतः सुग्रीवतारासहिता शिशुचुर्वाणरा जलम् सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् ततोथतम् बालिनमग्र्यपौरुषम् प्रकाशमिक्ष्वा कुवरेषु नाहतम् प्रदीप्य दीप्ताग्निसमौजसम् तदा स लक्ष्मणम् हरिः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये किष्किन्धा काण्डे पञ्चविंशः